श्रीविघ्नेश्वरष्टोत्तरशतनामस्तोत्रम् क्लिरायको विघ्नराजो गौरीपुत्रो गणेश्वरः स्कन्दाग्रजोऽ व्ययः पूतो दक्षोऽध्यक्षो विजप्रियः अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीप्रदोव्ययः सर्वसिद्धिप्रदः सर्वदा यः शर्वरिप्रियः सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितः शिवः शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः दन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः लम्बोदर शूर्पकर्णो सोमसूर्याग्निलोचनः पाशाङ्गुशधरश्चण्डो गुणातीतो अकल्मषस्वयंसिद्धः सिद्धार्चितपदाम्बुजः बीजपूरफलासक्तो वरदः शाश्वतः कृती त्रिजप्रियोगे तभयो गरीचक्रीषु चापधृत् श्रीरोज कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः चन्द्रचूडामणिः कान्तः पापहारीसमाहितः आश्रितश्रीकरः सौम्यो भक्तवाञ्छितदायकः शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ज्ञानीदयुगोदान्तो ब्रह्म द्वेषविवर्जितः प्रमत्तदेत्यभयदश्रीकण्ठो विबुधेश्वरः प्रमार्जितो विधिर्नागराजयिज्ञोपवीतवान् स्थूलकण्ठस्वयङ्कर्ता सावघोषप्रियः परः स्थूलतुण्डोऽग्रणे भीरो वागीशसि हृदायकः दूर्वा बिम्बप्रिजो व्यक्तमूर्तिरद्भुतमूर्तिमान् शैले न तनुजोत्सङ्गखेलनोत्सुकमानसः मलावण्य समस्त समस्तजगदाधारो मायी मूषकवाहनः हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः अष्टोत्तरशतेनैवम् नाम्नाम् विघ्नेश्वरम् विभुम् तुष्टावशङ्करः पुत्रम् त्रिपुरम् हन्तुमुद्यतः जःपूजय दनेनैव भक्त्या सिद्धिविनायकम् दूर्वादणैर्बिल्मपत्रैः पुष्पैर्वाचन्दनाक्षरैः सर्वान् कामानवाप्नोति सर्वविघ्नैः प्रमुच्यये श्री श्रीभविष्योत्तरपुराणे विघ्नेश्वरष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्